नारदपुराणं पूर्वार्थम् अध्यायं 57 सेवन् सनन्तन उवाच वैदिकं लौकिकं चापि छन्दो द्विविधमुच्यते मात्रावर्णविभेदेन तच्चापि द्विविधं पुनः मय्यौ रस्सौ तजौ भनौ गुरुर्लघुरपि द्विज करणं छन्दसि प्रोक्ताश्चन्दशास्त्रविशारदैः सर्वगो मगनप्रोक्दो मुखलो यगणस्मृतः मध्यलो रगणस्वैव प्राम्त्यगसगणो मदः तगणोन्तलकुख्यादो मध्यगोद्यो भ आदिगः तिलकुर्न गणप्रोक्तस्त्रिका वर्णगणामुने च दुर्लास्तु गणाः पञ्च प्रोक्ता आर्यादिसम्मदाः सं योगश्च विसर्गश्चानुस्वरो लघुतः परः लघोर्दीर्घत्वमाख्यादिदीर्घो दी गोलो लघुर्मतः पादश्च दुर्धभागस्याद्विच्छेदो यदिरुच्यते सममर्धसममवृत्तं विषमं चापि नारदतुल्यलक्षणतः पादचतुष्के सममुच्यते आदित्रिके द्विचतुर्थे सममर्धसमं तदं लक्ष्मभिन्नं यस्य पादचतुष्के विषमं हि तद् एपाक्षरात्समारभ्य वर्णैकैकस्य वृद्धितः षड्विंशत्यक्षरं यावत् पादस्तावत्पृथक्पृथक् तत्परं चण्डवृष्ट्यादिदण्डकाः परिकल्पिदाः त्रिभिषड्भिः पदैर्गाधाशृणुसंज्ञा यथोत्तरम् उक्तात्युक्दा तद्धा मध्या प्रदिष्ठान्या सुपूर्विका गायत्र्योक्ष्णि गनुष्टप् चरेवज गायत्र्योस्णि गनुष्ठप् च बृहदीपङ्गीरेव च त्रिष्टुप् च जगदिच्चैव जगदि मदा सकरीसादि पूर्वाज ष्ट्यत्यष्टिस्ततस्मृतेश्च विश्चैव विकृधिस्संकृतिश्चैव तथा इत्येताश्चन्तसां संज्ञा प्रस्ताराभेदभागिकाः पादे सर्वगुरौ पूर्वीलघुंस्थाप्य गुरोरथः यथोपरि तथा शेषमग्रे प्रारह्वन्यसेदपि येषप्रस्तारौदिदो यावत् सर्वलघुर्भवेत् नष्टां कार्धे समेल स्यात् ंसैव सोर्धकः उद्दिष्टे द्विगुणानाद्यादङ्गान् सम्मोल्यलस्थितान् कृत्वा संख्यामि पुरा संख्यामिधिप्राहुपुराविदः वर्णान् सेकान् वृत्त भवानुत्तराधरदस्थितान् एकादिक्रमतश्चैका नुपर्युपरि विन्यसेद उपां त्यजो निवर्तेद त्यजनेकैकमूर्धदः का उपर्याद्याद्गुरोदेव मे गद्व्यादिलगक्रिया भवेत्संख्या विमिश्रिते उद्दिष्टाङ्कसमाहारसैको वा जनयेदिमां संख्यैवद्विगुणैको न सद्भिरध्वा प्रकीर्तितः इत्येतत्किञ्चिदाख्यागं लक्षणं छन्दसां नुने प्रस्तारोक्तप्रभेदानां नामानां स्थ्यं प्रगाहते इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे संक्षिप्तच्छन्दोवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ओम्